द्रष्टुं भागीरथीं गङ्गामुवासबहुलासमाः यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना आहृताह्रतवो मुख्याः शतं भरतसत्तमा यत्र हिरण्मयाः शोभार्थम् विहितास्तत्र न तु दृष्टान्ततः कृताः अत्रेष्ट्वा सगतः सिद्धिम् सहस्राक्षचीपतिः यत्र भूतपतिः सृष्ट्वा सर्वान् लोकान् सनातनः उपास्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः नरनारायणौ ब्रह्मा यमस्थाणुश्च पञ्चमः उपासते यत्र सत्रम् सहस्रयुगपर्यये यत्रेष्टम् वासुदेवेन सत्रैर्वर्षगणान् बहून् श्रद्दधानेन सततम् धर्म सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः ददौ यत्र सहस्राणि प्रयुतानि च केशवः तत्र गत्वा स शङ्खं च भारता स्फाटिकं च स भाद्रव्यं यदा सीदवृषपर्वणः किङ्करैः सह रक्षोभिर्यदरक्षन् गत्वा सर्वं महासुरः तदाहृत्य च तं चक्रे सोऽसुरो प्रतिमां सभां विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभां गदां च भीमसेनाय प्रवरां प्रददौ तदा देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमं यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे सभा दशकिष्कुसहस्राणि समन्तादायता भवत् यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा भ्राजमाना तथात्यर्थम् दधार परमम् वपुः अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् प्रबभौ ज्वलमाने वर्चसा नवमेघप्रतीकाशा दिवमावृत्यविष्ठिता उत्तम द्रव्य द्रव्यसंपनात्नाकार तोरण बहुचित्रा बहुधना सुताकर्मण